अथ चतुर्थकाण्डे तृतीयः प्रश्नः प्रारम्भः अपान्द्वेवम् साधयाम्यपान्त्वात्मन् साधयाम्यपान् त्वाभस्मं साधयाम यपान् त्वा ज्योतिषि साधयाम्यपान् त्वायने साधयाम्यर्नवे सदने चेदसमुत्रे सदने चेदसलिले सदने चेतापाक्षये सिधा गो सदिशि चेदापान् त्वा सदने साधयाम्यपान् त्वा सदस्ये साधयाम्यपान् त्वा पुलेशे साधयाम यपान् त्वा यो नो साधयामि वान्त्वापाथसि साधयायित्रे छन्दस्तुष्टप्च्छन्दायग े छन्दानष्टप्छन्दः पञ्चच्छन्दः यम्भवाभवस्तस्य प्राणाभवायनावसन्त प्राणायनागायत्रैवासन्द्यैगायत्र्यैगा यत्रङ्गायत्रापागुंशरपागुंशास्त्रिवत्र वृता रथन्तर गौरथन्तरात्मजष्ठय प्रजाप जगेदयात्मया प्राणं गृह्णा विप्रजायन् ऐढान्दर्यामान्दर्यामात् पञ्चदश पञ्चदशात् बृहत् बृहतो बृहद्वाच दश प्रजापतिविषेतया त्वया परो गृह्णान् प्रजाभ्योऽयं पश्चाद्भिस्तस्य चक्षर्वैष्वदशं वर्षाणि दाक्षषाणि जगत्या रक्षमात् शक्र शक्रा सप्तदश सप्तदशाद्वै ओं वैरोपात् विश्वामित्रादश प्रजापतिविभेदया त्रया राजक्षर्गमान् प्रजाप्य इदमकरात् शभस्तस्य श्रोत्रं शभ्यं शरश्रौत्य नष्टभस्वारप्रस्वारान् मन्त्रे मन्त्र विवंशयक विवंशाद्वै राजं वै राजा प्रजापतिगृहे दया त्वया श्रोत्रं गृह्णान् प्रजाभ्यस्तस्यैवादेहमन्त्रय न ग्रहे मन्त्रे पङ्के नग्रया ृणात्रिणवक्त्रे त्रिगुंशोऽ त्रिणवक्त्रे त्रिगुंशाभ्यागुंशाक्मरैवतेजाक्मरैव्याः विश्व प्रजापतिगृहेतया त्वया वाचम् जेदिशां वसन्दर्तोनामग्निर्देवता ब्रह्मद्रविणं दृग् स्वामसौ पञ्चदशवत्तनिस्त्रियानां प्रो वातो वादस्ता न घर्ष दक्षिणादिशां ग्रीष्मर्तोणं पञ्चदश स्वामस्सौ सप्तदशवत्तयस्त्रे दायानां दक्षिणातो वादस्य नातनर्षप्रतिजेदिशाम् हृषा हृदूनां विश्वे देवता स्वा ौ वेगविघुं सवर्तनस्त्रिवत्सोभयोगुं शरऋतोनां वृत्रा वरुणो देवता पुष्टन्द्रो मस्तृवर्तवाद्वया स्पन्दोयानामुत्तरातर्षितां हे शिरावृदूनां बृहस्पतिर्देवता वृचोत्तृ नवस्तो मस्सहोत्रय स्त्रिगुं सवर्तनिपष्टवा त्वया विघोरयानाम् ध्रुवक्षजध्रुवयो निध्रवाशध्रुवाञ्जो हिमासीदसाध्या मुख्यस्य गेतुम् प्रथमम् ध्वस्तादश्विनाध्वर्यो साधयता मिहत्वा सेदक्षे दक्षभि देहसेतदेव पृथिवी बृहदेसस्थापदमाचं विशस्वपि देवैति सोनवासिषेवाश्विहत्वा गायिनेव शमदेव योधारयन्नो वृद्धबहुलकं सुवीरम् अपामजम् नृमजम् बाधमाना रायस्पोषे यज्ञपतिमाभजम् त्रिसमग्धे हीयमाना एवोषमश्विना धैर्योसारेदामिहत्वा अग्नेः पुरेशमजदे मया नीतान् वा विश्वे अभिकृन्तु देव सामपृष्ठा कृतवदेहदे प्रजापदस्मे द्रविणायुरस्वाश्विनादयतामिहत्त्वा्यानाभिर्विष्टम्बनी दिशामधिपत्नी भवनामा ओ मेत्र विश्वकर्मा धर्शिरश्विना धैर्योदादयतामिहत्त्वा सजोरजभिः सजोर्विदाभिः सजोर्वसुभिः सजोर्दैः सजोरादित्यै सजोर्विश्वैर्देवैः सजोर्देवैः सजोर्देवैर्वयोनाधिरत्नये सजोर त्वा वैश्वानरायाश्विना धर्यो नारेलामिहत्वा प्राणम् मे बाह्यपानम् मे पाहि प्यानम् मे पाहि चक्षुर्म कुर्व्या वि पाहि श्रोत्रम् मे श्लोकयापस्पन्वौषधीर्त्युन्वत्पाहि च निष्पादाधिपो विर्वयस्सृष्ट्छन्द नित्यवाद्वया विराच्छन्दः पञ्चाविर्वया गायत्र्ये छन्द स्त्रिभत्सावय वृष्टिः छन्दस्तुर्यवाद्वयो नृष्टच्छन्दवाद्वयो बृहदे छन्द वृक्षा वयः सदा बृहते छन्द ऋषायच्छन्द ष्टम्भो वयुच्छन्दः क्षतमयामयम् गन्छन्दो विश्वकर्मा वयपरमेष्ठेच्छन्द्व मोद्धा वयप्रजापुतिच्छन्दः अव्यधमानामिष्टकान्द्रवाहरम् युवम् न्तरिक्षस्य पृष्ठेमायाम् यच्छान्तरिक्षम् गोहान्तरिक्षम् वायुगोषेर्विश्वस्मै प्राणाय बाणाय व्यानाय ध्यानाय प्रतिष्ठायै चरित्राय वायुस्वाभितुमह्या देवतया ज्ञा जेदिग्णशिलक्ष्णादिक्सम्राटिप्रति जैदिक्स्वाणश्री जीरिकधिकृत्यगायम् मेवाहि पुराणम् मेवाह्यमानमेव हि ज्ञानम् मे वा हिरक्षुमेवा हि श्रोतुमेव हिमनोमेजम्बवाचम् मे बिम्भामेवच्छा मा छन्द प्रमाछन्द प्रतिमाछन्द श्रेविच्छन्द पङ्क्तिश्छन्द कृष्ण्या प्रभते छन्द पृष्टच्छन्द विराच्छन्द गायत्रे छन्दः स्पृष्ट्छन्द जगते छन्द पृथिवेछन्द गोच्छन्दः समाच्छन्द नक्षत्राणि छन्द वनश्छन्द वाक्षन्द कृषच्छन्द अग्निर्देवतावातो देवता सूर्यो देवता चन्द्रमा देवतावसवो देवता रुद्रा देवता दृत्या देवता विश्वे देवा देवता मरुतो देवता बृहस्पतिर्देवतेन्द्र देवतावरुण देवतामूर्धा ध्रुवादिधरुणा इन्द्रियदेशे त्वाद्ये त्वा कृष्णयित्वा क्षेमायित्वा इन्द्रियाट् ध्रुवादिधरणे नृत्यषे त्वात्यसे त्वो विषय त्वावदायित्वा शस्य ग्रान्तः पञ्चदशादशकृतोदशस्तस्य विगुंसाधरण एकविगुंसागच्छा त्वा विपुंशस्सम्भरणत्रया विवंशायानश्चतुर्विघुंशागद्भ्या पञ्चविघुंशभजस्त्रिणवकृतरेक त्रिपुंशः प्रतिष्ठा त्रयस्त्रिवंशाष्टपञ्चदशत्रिवंशानागश्च त्रिपुंसाधष्टाचत्वा द्विपुंशात्रश्च भागवति दीक्षाया आधिपत्यम् ब्रह्म स्मृतम् त्रिवृत्स्वा इन्द्रस्य भागोसि विष्णोराधिपत्यम् शत्रघुस्मृतम् पञ्चदशस्तामो न चक्षसाम् भागवसि धातुराधिपत्यम् जनित्रगुस्पृतो सप्तदशस्तामो पुत्रस्य भागोति वरुणस्याधिपत्यम् दिवोष्टिर्वादा त्यानाम् भागोऽसितामाधिपत्यम् गर्भा स्मृताः पञ्चपुंशस्सोमो देवस्य सविदुर्भागोऽसि बृहस्पतेराधिपत्य समीचीर्तिषस्पृताश्चमो यावानाम् भागो यावानामाधिपत्यम् प्रजास्पृताश्चत्वारि पुंसस्सोमर्घूणाम् भागोऽसि विश्वेम् देवानामाधिपत्यम् भोजन्निशाम् तगस्पृतम् द्रीकुंसस्तोमः एकयास्त्वद प्रजा अधीयन्द प्रजापतिरधिरासे त्रिसृभिरस्तवद ब्रह्मादृत्यद ब्रह्म दस्पतिरधिरासे पञ्चभिरस्त्वद बोधान्यदृत्यन्दोधानापतिविजरासे सप्तभिरस्तवद सप्त ऋषयो दृत्यन्त धाताधिरासे नवभिरस्तवद पितरो दृत्यन्तादितिरधिपत्न्यासीदेकादशभिरस्त्वदत्तवो दृत्यन्दात्तवोऽधिरासे त्रयोदशभिरस्तव नमासादृत्यन्त संवत्सरोधिवितरासे पञ्चदशभिरस्त्व नक्षत्रमृत्येन्द्र धिपतिरासीत् सप्तदश बिरस्वद पशव सृज्यन्त बृहस्पतिरधिपुजरासीन्नव दश बिरस्व श्रोत्रार्यावृत्ये अधिपत्नी आस्तामेकविंशत्यास्त्वपदेकशः पशव सृत्यन्त वरुणोऽपीत् त्रयो विंशत्यास्त्वसृज्यन्त भूषाधिपुजरासीत् पञ्चविंशत्यास्त्वदारण्या पशव सृत्यन्त वायुरधिबुधरासीत् सप्त विकोशत्यास्त्वधत्या वा पृथिवी ृत्यासृत्यन्त सोमाधिपतिरासीदेकत्रिकौशलास्त्वद प्रजासृत्यम् दयावानाम् चायावानाञ्चाधिपत्यमासीत् त्रयस्त्रिकौशलास्त्वद भूतान्यसीत् इयमेव जाया प्रथमा योच्छदन्तरस्याञ्जलति प्रविष्टा वसोद्ययानित्रे त्रयेनाम् महिमानः सचन्ते छन्दस्वतीशाने समानन्यो निश्चरन्ति सूर्यपत्नी विचरदप्रजानती केदम् बृह्ने अजरे भोरिरेतसा रजस्य बन्धा मनुधस्रः गुस्त्रयो घर्मास नत्यो दिशामेका रक्षत्योद्यमेका व्रतमेका रक्षतिरेव योना रष्टामानुभवत्या तुलीया यज्ञस्य पक्षा विषयो भवन्ति यत्रीन्निष्ठभम् जगदेव निष्ठभम् जानास्वरापरम् पञ्चतासापञ्चपञ्च तासामयन्त्यप्रयवेणपञ्चनारूपानिष्कृतपावसानाः छोषत्स्वचारूपयन्ति निष्कृतकोसमानम् केतम् प्रतिमुञ्चमानाः अथोगस्सन्मते कवयप्रजानतेर्मध्ये छन्दसप्रयन्त्यस्वतीः ज्योतिष्मदी प्रतिमञ्च तेन भोरात्री देवी सौर्यस्य व्रतानि पिपश्यन्ति पशुरो जायमानानारूपा माधुरस्यापस्थे एकाष्टराजपसादप्यमानादयानगर्भम् का जा मे मानमिन्द्रम् तेन तस्योन्यदेवान्तासुरा नामभवर्थ्यजीवे अनादयापुजामगर्तसत्यम् ना वदञ्जन्यच्छावो अन्यापजमा प्रयुक्ता तो विश्ववेदाष्टप्रतिष्ठा मविदधिगाधम् भूया समस्रमतो यथा योजमन्यावो अन्यामदिमा प्रयुक्ता पञ्चव्यष्टेन पञ्चदो पञ्चदश पञ्चदशोरभिलोकमेकम्भः प्रथमाम् योजिष्यमामेकामहिमानम् विभर्ति सो यस्यैकाचरतिष्कृतेष धर्मस्यैका सविजैका नियच्छति Earth... या प्रथमाम् योच्छत्साधेरभामे सा न पयस्पतिरि ऋक्ष्वत्तरामत्तरागुसमा शुक्लषादार्योतिषागा विश्वरूपाशपदी रक्ष्मिकेतुः मानमथस्य मान विप्रदेजरामजोषागाः तूनाम् पत्नेः प्रथमे मागानन्नान्नेत्रे च नेत्रे प्रजानाम् एका सती बहु दोषो विश्वमन्य अग्ने जातान् तृणदानः स्वपत्नान्वृत्यजाताञ्जातवेदोनदस्व तस्मेदीतिसुमाहेडम् तव स्यागोषन्मन्त्रिवरोध उद्भिद् जातान् तृणदानस्वपत्नान्वृत्यजाताञ्जातवेदोनदस्वहि मानो वै कृष्याम प्रणदानस्वपत्नान् चतुश्चत्वारिंशस्त्व भवच्चात्रेण गोषाणशस्त्वमवजात्रेण पृथिव्याप्रेषमस्य स नाम हरिहश्चन्द्रश्चन्द शंभोश्चन्द प्रभोश्चन्द आच्छन्दो मनश्चन्दो गिरन्द्रश्चन्द्रलन्द सय्यच्छो विरच्छन्द्र बृहच्छन्दरं चन्द्रश्चन्द्रन्दो गिरश्चन्द्रन्द्र सष्टुप्छन्दष्टोछन्दगच्छन्द्रिगच्छन्द काव्यवन्द पदभं तिष्ठन्दा अक्षरभं गृच्छन् तिष्ठन्दः क्षुराभृतवानछन्द प्रच्छन्द पक्षन्द छन्दो वरिवश्चन्दो वयश्चन्दो वयस्कृच्छन्द विशालन्द विश्वन्ददिच्छन्दो दौरोहणम् छन्दश्चन्द्रम् छन्दोगाङ्गम् छन्दः अग्निर् जङ्घनत्रविणस्य विवन्यया समिद्ध शुक्र न यत्ते शोचश्चमसामरम् तदध्वस्मानस्ते आधुः भद्रन्दे अग्ने सह सिन्नने गमपाक आरोचते सौर्यस्य द्विषद्विषयम् दृशारोपे अन्नम् सैनानीकेन च विदत्तो अस्मैष्टा देवागमायतिष्ठस्वस्ति अतध्व गोपा उदनः परस्पाग्नेतरे वृत्तिः स्वस्तिनो दिवज्ञे पृथिव्या विश्वा युद्धेः यजथाय देव यत्सीमहितेषस्ततस्मात्सत्रगन्धेः चित्रम् यथाहो धर्मनुषो देवतातः यज्ञेभिः स्वनासह स यजासि देवानाद्यसमनासमानानुसन्नग्नौशतो यक्षदेवान् अग्निवीदेशूर्तिजम्षा देववृषावषाधर्माणि दधिषे सान्द्रमना इदगो हविर्मरुदः सद्युष्टन युष्माको नायुस्करसत्यादि मरुतोदिघागुंसादृहपाशम् प्रति समुदेष्टदपिष्ठेन मृतः स्वर्गा वृक्षया सकनामानुशेषु हेमत्पाशाम् ब्रमम् चन्द्रकोहसारमादिष्णवः देवागुंसुधा ये देव्याभिर्ग्ने तृणामस्यायधिष्ठः अग्नेयदोऽकसो जैवेष्टमो हेद्वा अयधासि मैनाभियद्भो हव्यावहयष्टया च अद्य अग्निना रेमस्य वत्पोषमेव दिवे दिवे यशसंवेरवत्तमम् वेष्पाणोऽसूरिपृष्टिवर्धनः सुमित्रस्य मनोभव गृहमेधासहागतमलुतोमापबोधन प्रमञ्जन्दानाहगोहसः पूर्वेभिरहिता शिवशाद्भिर्मयम् महाभिश्चर्षणीनाम् प्रबुद्धिया एरते हो महागोमसि प्रणामाधिप्रयज्यवस्थिरध्वम् सहस्रयन्दम्यम् भागमेतङ्ग्रहमेधीयम् मरुतोशिरध्वम् अभयमेतयवधिस्वदक्षम् दोषावस्तो हविष्पदीकृताची हिमाग्नेतदमानिहव्याजस्रावक्षि देवतादिमथ्या प्रतिनये सुरभीणि निजन्तु एडम् अस्य धामारुतमनर्वाणगौरथे शुभम् कण्वा अभिप्रगायता अत्यासोनयमरुदस्वञ्चयक्षदृशाशुभयन्तमर्याः ते हर्म्येष्ठाशिषवनशुभ्रावत्सा सोनप्रक्रीडिनः पयोधामज्मेषु विधरेवरे च देभौ निर्यामेषु यद्ध इन्द्रे शुभे ते क्रीडयोधनयो प्रायदृष्टे स्वयम् महित्वम् पलयम् तथोदयः वःलेषितचित् धञयो केनचित्पथापोशापोर्धेष्वाघृतमक्षदामधवर्णमर्चते अग्निमग्निगोऽहमेवभिः सदा वन्दविष्पतिम् अव्याहम्बरुक्रियम् तगो हि यश्वन्द ईडते दे सृचा देवम् हृतस्युता न्द्राचिनादिवस्न्यधत्रुत्रमिन्द्रम् वा विश्वदस्परेन्द्रन्न विश्वकर्मण हविषा वा वृद्धाना विश्वकर्मण इति चतुर्थकाण्डे तृतीयः पश्य समाप्तः